देवीस्तोत्रम् श्रीसरस्वत्यै नमः श्री शारदे नमस्तुभ्यं जगद्भवनदीपिके विद्वज्जनमुखाम्भोजभृङ्गिके मे मुखे वस वागीश्वरि नमस्तुभ्यं नमस्तेऽहंसगामिनि नमस्तुभ्यं जगन्मादर्जगत्कर्त्रिं नमोऽस्तु दे शक्तिरूपे नमस्तुभ्यं कवीश्वरि नमोऽस्तु दे नमस्तुभ्यं भगवदि सरस्वति नमोऽस्तु दे जगन्मुख्ये नमस्तुभ्यं वरदायिनि ते नमः नमोऽस्तु तेऽम्बिका देवि जगत्पावनि ते नमः शुक्लाम्बरेणमस्तुभ्यम् ज्ञानदायिनि ते नमः ब्रह्मरूपे नमस्तुभ्यम् ब्रह्मपुत्रि नमोऽस्तु ते विद्वन्मादर्नमस्तुभ्यम् वीणाधारिणिते नमः सुरेश्वरि नमस्तुभ्यम् नमस्ते सुरवन्दिदे भाषामयिनमस्तुभ्यम् शुकधारिणि ते नमः पङ्कजाक्षि नमस्तुभ्यं मालाधारिणि ते नमः पद्मारूढे नमस्तुभ्यं पद्मधारिणि ते नमः शुक्लरूपे नमस्तुभ्यं नमञ्जिपुरसुन्दरी श्रीदायिनि नमस्तुभ्यं ज्ञानरूपे नमोऽस्तु ते सुरार्चि नमस्भ्यं भुवनेश्वरिते ते कृपावदि कृपादि नमस्भ्यं यशोदाइ सुखप्रदे नम नमस नमस्तुभ्यं नम सौभाग्यवर्धि विश्वश्वरी नमस्भ्यं जगत जगत्पूज्ये नमस्तुभ्यं विद्यां देहि महामहे श्रीर्देवदे नमस्तुभ्यं जगदम्बे नमोऽस्तु दे, नमस्तु दे। महादेवी नमस्तुभ्यम् पुस्तकधारिणिते नमः कामप्रदे नमस्तुभ्यं श्रेयो माङ्गल्यदायिनि सृष्टिकर्त्रीं नमस्तुभ्यं सृष्टिधारिणि ते नमः जगद्धिदे नमस्तुभ्यं नमः संहारकारिणि विद्यामयि नमस्तुभ्यं विद्यां देहि दयावदी महालक्ष्मिनमस्तुभ्यं पीतवस्त्रे नमोऽस्तु दे पद्मालये नमस्तुभ्यं नमः पद्मविलोचने सुवर्णाङ्गि नमस्तुभ्यम् पद्महस्ते नमोऽस्तु दे नमस्तुभ्यम् गजारूढे विश्वमात्रे नमोऽस्तु दे शाकम्भरि नमस्तुभ्यम् कामधात्रिनमोऽस्तु ते क्षीराब्धिदे नमस्तुभ्यम् शशिस्वस्रे नमोऽस्तु हरिप्रिये नमस्तुभ्यं वरदायिनि ते नमः सिंधूराभे नमस््यं नमस्मदिदाइ लमस््यं वसुदाइ ते नम वसु शिव प्रदे नमस्तुभ्यं समृद्धि दिहि मे रे गणेशरि नमस्तुभ्यं दिव्योगि नम वि विश्व नमस्त महायोगिनी नम भयङ्करि नमस्तुभ्यम् सिद्धयोगिनि ते नमः चन्द्रकान्दे नमस्तुभ्यं चक्रेश्वरि नमोऽस्तु दे पद्मावति नमस्तुभ्यम् रुद्रवाहिनि ते नमः परमेश्वरि नमस्तुभ्यम् कुण्डलिनि नमोऽस्तु दे कलावदि नमस्तुभ्यम् मन्द्रवाहिनि ते नमः मङ्गले च नमस्तुभ्यम् श्रीजयन्ति नमोऽस्तु चण्डिके च नमस्तुभ्यम् दुर्गे देवि नमोस्तुदे दे स्वाहारूपे नमस्तुभ्यं स्वधारूपे नमोऽस्तु दे प्रत्यङ्गिरे नमस्तुभ्यं गोत्रदेवि नमोऽस्तु दे शिवे कृष्णे नमस्तुभ्यं नमः कैडभनाशिनि कात्यायनि नमस्तुभ्यं नमो धूम्रविनाशिनि नारायणि नमस्तुभ्यं नमो महिषखण्डिनि सहस्राक्षि नमस्तुभ्यं नमश्चण्डविनाशिनि तपस्विनि नमस्तुभ्यं नमो मुण्डविनाशिनि अग्निज्वाले नमस्तुभ्यं नमो निशुम्भखण्डिनि भद्रपालि नमस्तुभ्यं मधुमद्दिनि ते नमः महाबले नमस्तुभ्यं शुम्भकण्डिनि ते नमः श्रुतिमयि नमस्तुभ्यं रक्तबीजवधे नमः धृदिमयि नमस्तुभ्यं दैत्यमर्दिनि ते नमः दिवागदे नमस्तुभ्यं ब्रह्मदायिनि ते नमः माये क्रिये नमस्तुभ्यं श्रीमालिनि नमोऽस्तु दे मधुमधि नमस्तुभ्यम् कले काली नमोस्त श्रीमादंगि नमस्भ्यजए नमोस्तु जय तेज नमस््यं श्रीशाभ विनमोस्तुमादंगि नमस्तुभ्यं विजिए च नमोस्त जय तेज नमस्भ्यं श्रीशाभ विनमोस्तुत्रने नमस्त नम शंकर वाग्वादिनि नमस्तुभ्यं श्रीभैरवि नमोऽस्तु दे मन्द्रमयि नमस्तुभ्यं क्षेमङ्गरि नमोऽस्तु दे त्रिपुरे च नमस्तुभ्यं तारे शबरिते नमः हरसिद्धे नमस्तुभ्यं ब्रह्मवादिनि ते नमः अङ्गे वङ्गे नमस्तुभ्यं कालिके च नमोऽस्तु उमे नन्दे नमस्तुभ्यं यमखण्डे नमोऽस्तु दे श्रीकौमारि नमस्तुभ्यं वादकारिणि ते नमः दीर्घदंष्ट्रे नमस्तुभ्यं महादंष्ट्रे नमोऽस्तु प्रभे प्रभे रौद्रिनमस्तुभ्यं सुप्रभे ते नमो नमः महाक्षमे नमस्तुभ्यम् क्षमाकारि नमोऽस्तु सुताजिके नमस्तुभ्यं भद्रकाळि नमोऽस्तु दे नमस्तुभ्यं वनदेवि नमोऽस्तु नारसिंहि नमस्तुभ्यं नमस्तु नमस्तु नमस्तु महाविद्ये नमोऽस्तुदे अग्निहोत्रि नमस्तुभ्यं सूर्यपुत्रि नमोऽस्तुदे सुशीतले नमस्तुभ्यम् ज्वालामुखि नमोऽस्तु दे सुमङ्गले नमस्तुभ्यं वैश्वानरि नमोऽस्तु दे निरञ्जने नमस्तुभ्यं श्रीवैष्णवि नमोऽस्तु दे श्रीवाराहि नमस्तुभ्यं तोतलायै नमो नमः कुरुकुल्ले नमस्तुभ्यं भैरवपत्निते नमः अथागमोक्तनामानि स्वयमूह्यानि पण्डितैः कथ्यन्ते कानि नामानि प्रसिद्धानि तथा न वा हेमकान्दे नमस्तुभ्यं हिङ्गुलायै नमो नमः यत्नविद्ये नमस्तुभ्यं वेदमादर्नमोऽस्तु ते श्रीमृडानि नमस्तुभ्यं विन्ध्यवासिनिधे नमः पृथ्वी ज्योत्सने नमस्तुभ्यं नमो नारदसे विदे प्रह्लादिनि नमस्तुभ्यमपर्णायै नमो नमः जयनेश्वरी नमस्तुभ्यं सिंहगामिनि ते नमः बौद्धमादर्नमस्तुभ्यं जिनमादर्नमोऽस्तु दे ओङ्कारे च नमस्तुभ्यं राज्यल नमोस्तु शुद्धात्मक नमस्भ्यं राजनी दे नमोस्तु दे। मंदाकिनी नमस्तुभ्यम गोदावरी नमोस्तु पताकि नमस्तुभ्यम भगमालिनी के नम वज्रयुे नमस्भ्यं परापरक नम वज्रहस्ते नमस्तुभ्यं नमः नमस्तुभ्यं कुलवासिनि ते नमः शदबाहु नमस्तुभ्यं श्रीत्रिचक्रेक्रमे नमस्तु महाभुजे नमस्तुभ्यं नमः नमस्यामे नमस्तुभ्यं षट्चक्रक्रमवासिनि वसुप्रिये नमस्तुभ्यं रक्तादिनि नमो नमः महामुद्रे नमस्तुभ्यमेकचक्षुर्नमोऽस्तु दे पुष्पवाणे नमस्तुभ्यं खगगामिनि ते नमः मधुमत्ते नमस्तुभ्यं, नमस्तुभ्यं। बहुवर्णे नमो नमः मदोद्धते नमस्तुभ्यम् इन्द्रचापि नि नमः चक्रभस्ते नमस्तुभ्यं श्रीखड्गिणि नमो नमः शक्तिहस्ते नमस्तुभ्यं नमस्त्रिशूलधारिणि वसुधारे नमस्तुभ्यं नमो मयूरवाहिनि जालन्धरे नमस्तुभ्यं सुबाणायै नमो नमः अनन्तर्वीर्ये नमस्तुभ्यं वरायुधरे नमः वृषप्रिये नमस्तुभ्यं शत्रुनाशिनिते नमः वेदचक्रे नमस्तुभ्यं वरधारिणिते नमः वृषारूढं नमस्तुभ्यं वरदायै नमो नमः शिवदूदि नमस्तुभ्यं नमो धर्मपरायणे खनध्वनि नमस्तुभ्यं षट्कोणायै नमो नमः जगत-garbhye-namastubhyam, जगद्गर्भे नमस्तुभ्यं त्रिकोणायै नमो नमः निराधारे नमस्तुभ्यं सत्यमार्गप्रबोधिनि निराश्रये नमस्तुभ्यं छत्रच्छाया कृतालये निराकारे नमस्तुभ्यं वह्निकुण्ठकृतालये प्रभावरि नमस्तुभ्यं रोगनाशिनिते नमः तपो तपोनिष्टे नमस्तुभ्यम् सिद्धिदायिनि ते नमः त्रिसन्ध्यके नमस्तुभ्यम् दृढबन्धविमोक्षणि तपोयुक्ते नमस्तुभ्यम् काराबन्धविमोचनि मेघमाले नमस्तुभ्यं भ्रमनाशिनि ते नमः ह्रीं क्लीङ्गारि नमस्तुभ्यम् सामवायनि ते नमः ॐ ऐं नमस्तुभ्यं बीजरूपं नमोऽस्तु दे नृपवश्ये नमस्तुभ्यं शस्यवर्धिनि नमः नृपसेव्ये नमस्तुभ्यं धनवर्धिनि नमः नृपमान्ये नमस्तुभ्यं लोकवश्यविधायिनि <Sessama> नमः सर्वाक्षरमयि वर्णमालिनि ते नमः श्रीब्रह्माणि नमस्तुभ्यं चतुराश्रमवासिनि शास्त्रमयि नमस्तुभ्यं वरश्शास्त्रास्त्रधारिणि तुष्टिदे च नमस्तुभ्यं पापनाशिनि ते नमः पुष्टिदे च नमस्तुभ्यमार्तिनाशिनि ते नमः धर्मदे च नमस्तुभ्यं गायत्रीमयिते नमः कविप्रिये नमस्तुभ्यं चतुर्वर्गफलप्रदे जगज्जीवे नमस्तुभ्यं त्रिवर्गफलदायिनि जगद्बीजे नमस्तुभ्यमष्टसिद्धिप्रदे नमः मादङ्गिनि नमस्तुभ्यं नमो वेदाङ्गधारिणि हंस गदे नमस्तुभ्यम् परमार्थप्रबोधिनि चतुर्बाहुनमस्तुभ्यम् नमस्तुभ्यं ते नमः चतुर्मुखि नमस्तुभ्यं द्युतिवर्धिनि ते नमः चतुस्समुद्रशयिनि तुभ्यम् देवि नमो नमः कविशक्ते नमस्तुभ्यं कलिनाशिनि नमः कवित्वदे नमस्तुभ्यम् मत्तमादङ्गगामिनि इति स्तोत्रं समाप्तम् ओम्